ततः प्रत्यक्षतो दृष्ट्वा पक्षिणस्ते समीपगाः निजघ्नुस्तम् तदा हंसम् मिथ्यावृत्तम् कुरुद्वः ते त्वाम् हंसधर्माणमपि मे वसुधाधिपाः निहन्युर्भीष्मसङ्क्रुद्धाः पक्षिणस्तं यथाण्डजं गाथामप्यत्र गायन्ति ये पुराणविदो जनाः भीष्मयां तां च ते सम्यक् कथयिष्यामि भारत अन्तरात्मन्यभिहते रौषिपत्ररथाशुचि अण्डभक्षणकर्मैतत् तव वाचमतीयते इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि शिशुपालवाक्ये एकचत्वारिंशोऽध्यायः